ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे त्रयोविंशोऽध्याय व्यासवाच तमेवम् उक्त्वा राजानं निर्घृणं निश्वरं वचहे तदाय धनं पूर्णं कुपितः कौशिको विश्वामी गतः शोकम सा चोवाचोच मुख्य मैयाेते न, न ब्रवीतों तरयुक्त या मे ठति भास्कर धर्मशाणा गन्धो विकृतो रस्कःश्रुलोदन्तुरोघृणी कृष्णो लम्बोदरस्नेह करालः पुरुषाधमः हस्त जर यष्टे च शिवल्यैरलङ्कृतः चाण्डालवाच अहं गृह्णामि दासस्वे भूत्यार्थ सुमहान् मम क्षिप्रमाचक्ष्व मौल्यं किम् एतत् सम्पदीयते कासवाच तादृशं क्रूर धृष्टिं सुनिर्गुणं परन्त पर पार्थिवः चाण्डालवाच ताण्डालोहं यः ख्यातः प्रवीरेति नृपोत्तमये शासने सर्वधातिथे मृतशैलाप्रहारकः एवम् उक्तः राजा वचनं चेदमब्रवित् ब्रह्मणक्षत्र यो वापि गृह्णास्वितिमतिर्मम उत्तमस्योत्तमो धर्मो मध्यमस्य मध्यमः अधमस्य धमः इति प्राहुर्मनीषिणः वाच एवमेव एव त्वया धर्मः कथितो नृपसत्तम अविचार्य त्वया राजन् अधुनोक्तम् ममाग्रतः विचारयित्वा यो ब्रूते लभते नरः सामान्यमेव तत्रोक्तम् अविचार्य त्वया नघे यदि सत्यं प्रभाणं सत्यान्नरके गृहीतो हरिश्चन्द्रवाच सत्याण्डालता सि न व्यासवाच वदतः प्राप्तो विश्वामित्र तपोनिधिः क्रोधामश्च विभृताक्षे सः चेदं रं चाण्डालोयं दस्थं ते तातुम् वित्तमुपस्थितः कस्मान्न दीयते मह्यम् अशेष यज्ञदक्षिणा राजोवाच भगवन् सूर्यभुचोथम् आत्मानं वेद्मि कौशिक कथं चाण्डालदासत्वं गमिष्ये वित्तकामतः विश्वामित्र उवाच यदि चाण्डाल वृत्तं तम् आत्मविक्रयजं न प्रदासति चेत् तर्हि शक्ता संशयम् चाण्डालात् चाण्डालात् अथवा पि प्रा देहि मे दक्षिणाधनम् मधुन कश्चित् धनेनाहं विना राजन् न यास्यामि न समुचये इदानीमेव मे वित्तं न पदा सूर्येन्द्र घटिकाशेशी तां चापाग्नि न दे दहे दासुवाच हरिश्चन्द्रे ततो राजा मुतभै जीवितः वदन धनपादौ कृषे जग्राह विह्वलः हरिश्चन्द्रवाच दातोऽस्मि धेनोस्मि तद्भक्तः च विशेषतः प्रसादं कुरु विप्रे कष्टश्चाण्डालशङ्करः भवेयं वित्तशे तेन तव कर्म करो वचः तवैव मनुष्य दूरश्चित्तानुवर्तकः महाराज ममक किं तो मद्वचन कार्य नुक्थ वचने राजा चमंत अमन्य पुनः तवादेशं कौशिक सदैवाहं न संशय हे आदेश यद्विजयश्रेष्ठे किं करोमि तवानघे विश्वामित्र उवाच चाण्डाला गच्छासम् मौल्यं किं वे प्रयच्छति ग्रहणरासं मौल्येन मया दत्तं तव अधुना नास्ति राशेन मे कार्यं वित्तासा वर्तते मम एवमुक्ते तदा तेन स्वपचोरुच्यमानतः अगच्छ सन्निधा सूर्णम् विश्वामित्रम अभाषत चाण्डालवाच दशयोजनविक्रेणे प्रयागस्य च मण्डले भूमिम् रत्नमीम् कृत्वा दास्येत् तेऽहम् द्वियोत्तमे काचित् प्रहता तया रासवाच ततो रत्नसहस्राणि स्वर्ण मणिमुक्तिकैः चाण्डालेन प्रदत्तानि जग्रह द्विजदत्तमः तसा राज राजा मुखो मुखोऽभवत् अमन्यत तथा धैर्यात् विश्वामित्रो हिमे पतिः तत्तदेव मया कार्यं यदयं करिष्यति अतान्तरिक्षे सरीरिणीनसि महाभग दत्ता सा दक्षिणा त्वया ततो दिवस पुष्पवृष्टिः पपा च नृपमूर्धनि साधु साध्वीतं देवः ऋचु आश्रेण महता विष्टो राजा कौशिकमब्रवीत राजोवाच त्वं हि माता पिता चैव त्वं हि बन्धुर्महामते यदर्थोचितोऽहं दे क्षणा चैव नृणीकृतये किं करोमि महाबाहु श्रेयो वचनं तवे एवमुक्ते तु वचने नृपं मुनियभाषते विश्वामित्रोवाच चाण्डालय वचनं कार्यम् अद्य प्रभृति स्वस्तिते नृपे स्वस्ति ते, ते स्वीति सम्प्रोचे तदा धाय धनं ययौ इति श्रीमद्देवी भागवते महापुराणे चादृश्यां शैतायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम्रे त्रयोविंशोऽध्याय श्री जगदंबिका